श्रीहरये नमः अथ षट्षष्टितमोऽध्यायः श्रीसुक उवाच नन्तव्रजं गते रामे करुषाधिपतिर्नृप वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय ब्रोहिणोत् त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः इति प्रस्तोभितो बाले मेन आत्मानमच्युतं धूतं च प्राहिणोन्मन्धक् कृष्णाया व्यक्तवर्त्मने द्वारकायां यथा बालो बुधः a um... दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुं कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् वासुदेवोऽवतीर्णोऽहमेक एव न चापरः भूतानामनुकं पार्थं त्वं त्वमिद्याभिधां त्यजान् यानि त्वमस्मच्चिह्नानि मौढ्यात् त्वं, त्वं शरणम् नो चेद्देहि ममाहवं श्रीसुक उवाचां कत्तनं तदुपाकर्ण्यपौण्ड्रकस्याल्पमेधसहा उग्रसेनाधयस्तभ्यावुच्चकैर्जगुसुस्तथाम् उवाच दूतं भगवान् परिहासकथामनो उस्रक्ष्ये मोटचिह्नानि यैस्त्वमेवं विकत्थसेन् मुखं ततः पिता याज्ञ गङ्गाकृद्रवटैर्व्रतः सुनाम् इति दूतस्तथाक्षेपं स्वामिने सर्वमाहरत् कृष्णोऽपि रतमास्ताय काशीमुपजगामः पौण्ट्रगोपि तदुद्योकम् उपलभ्य महारथः अक्षौहिणीभ्यां सम्यक्तो निश्चक्रामपुराधृतं तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वया नृप अक्षौहिणीभिस्तिष्भिरपश्यत् पौण्ड्रकं हरिहें सङ्कार्यसि गता विप्राणं कौस्तुभमणिं वनमाला विभूषितं कौसेयवाससीपीते वसानं गरुडध्वजम् अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलं दृष्ट्वा तम् आत्मनुस्तुल्यवेषं कृत्रिममास्थितं यथा नटं रंगगतं विजहासं भृशं हरिहे शूलैर्गतापि परिगै त्यरुष्टिप्रासमतोमरैः अशिभिप्पट्टिसैर्भाणैः प्राहरन्नरयो हरिं कृष्णस्तु तत्पौण्ड्रककाशिराजयोर्बलं गजस्यन्धनवाजिपत्तिमत् गतासिचक्रेषु बिरार्दयद् वृषं यथा युगान्ते हुदभुक् पृथक् प्रजाः आयोधनं कुञ्जरत् लिविपत्करोष्ट्रै अरिणावखण्डितैः बपौचितं मो तव कं मनस्विना आग्रीडनं भूतपतेरिवोल्बणम् अताहपौण्ड्रकं सौरिर्भोपो पौण्ड्रक यद्भवान् दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते त्याजयिष्ये भितानं मे यत्त्वयाज्ञमृषा धृतम् व्रजामि शरणं तेद्य यति नेच्छामि संयुगम् इति क्षिप्तासितैर्बाणैर्विरतीकृत्य पौण्ड्रकं शिरोवृ शिरो वृश्च व्र... शिरो रथाङ्गेन वज्रेणन्द्रो यथा गिरेः तथा काशीपतेकायाश्चिरमुत्कृत्य पद्रिभिः न्यपादयत् काशीपुर्यां पद्मकोशमिवानिलः एवं मत्सरिणं हत्वा पौण्ड्रकं ससकं हरिहें द्वारकाम् आभिशत्सिद्धैर्गीयमानकथामृतः स नित्यं भगवद् ध्यानभ्रत्वस्ता किलबन्धनः बिभ्राणश्च हरे राजन् स्वरूपं शिरः पतितमालोक्य राजद्वारे सकुण्डलं किमितं नातनातेतिप्रारुधन् सुदक्षिणस्तस्य सुतकृत्वा संस्थाविधिं पितुः यास्यां यपचितिं पितुः इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरं सुदक्षिणोर्चषायमास परमेण समाधिना प्रीतो विमुक्ते भगवान्स्तस्मै वरमधाद्भवः पितृहन्तृवधोपायं सव्रेवरमीप्सितं दक्षिणाग्निं परिचरः ब्राह्मणैः समं ऋद्विजम् अभिचारविधानेन शशाग्निप्रमतैर्वृतः साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः इत्यातिष्ठस्तथा चक्रे कृष्णायाभिचरन्व्रती ततोग् ततोऽग्नि तथोऽग्निरुत्थितः कुण्डात् मूर्तिमानधिभीषणः तप्तताम्रसिकाश्मश्रोर्गारोद्गारिलोचनः दंष्ट्रोग्रभृगुटी दण्टकटोरास्य स्व जिह्वया आलिहन्सृग्णीनग्नो वितोन्वन्स्त्रिशिकं ज्वलन् पद्यां तालं भ्रमाणाभ्यां कम्पयन्नवनीतलं सोभ्यधावत् भूते द्वारकां प्रदहन् दिशः तमाभिचारदहनम् आयान्तं द्वारकौ विलोक्य तत्र सुः सर्वे वनधाकमृगायत अक्षैः सभायाम् क्रीडन्तम् भयातुराः त्राहि त्रिलोकेश वग्ने प्रदहतः पुरम् श्रुत्वा तज्जन वैक्लव्यम् दृष्ट्वा साल्वश्च सात्वसं शरण्यः सम्ब्रहस्याह सर्वस्यान्तर्बैः साक्षीकृत्या माघेश्वरीं विभुः विज्ञाय तत् विघातार्थं पार्श्वस्थं चक्रमादिशत् तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभं स्वदेजसाकं कगुपोद रोदसी चक्रं मुगुन्दास्त्रम् शरदाङ्गपाणे अनृपभग्न मुखो सत्विग्नजं समदकत् स्वकृतो विचारक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालया पणाम् स गोपुराट्टालकगोष्ठसङ्कुलां सहोसहस्त्यस्वरतान्नशालां दत्वा वाराणसें सर्वां विष्णोश्चक्रं सुदर्शनम् भूयपार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्टकर्मणः य एतच्छावयेन्मर्त्य उत्तमश्लोकविक्रमं समाहितो वा शृणो यात् सर्वपापैः प्रमुच्यते इति श्रीमद्भागवते महापुराणे दशमस्कन्धे उत्तरार्ते पौण्ट्रघातिवधो नाम षट्षष्टितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमहाराज कि